प्रवाचिका सुषमा कुमारी जम्मूकश्मीर जम्मूकश्मीरे राज्यपाल शासनानन्तरं स्थितिं समीक्षित् सर्वदलीयोपवेशनं प्रवर्तमानमस्ति जम्मूकश्मीरे अनन्तनाग जनपदे श्री गुप्वारा क्षेत्रे अद्य सुरक्षाबलै सह सैन्य संघर्षे सैन्यबलेन चत्वार आतंकिन व्यापादिता एक आरक्षि भटोऽपि नभूतो जाताः अपरात्र पुलवामा जनपदे आतंकवाद्याक्रमणे अष्ट सुरक्षा कार्मिका आहता प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रबलं व्याहतं यत् देशस्य विकासदलं समेधित् कार्याचरणं विधातव्यम्म जम्मूकश्मीरे सर्वदलीयोपवेशनं प्रवर्तमानमस्ति उपवेशने प्राशासनिक अधिकारिण राष्ट्रिय दलानां प्रमुखा च राज्यस्य साम्प्रतिक स्थिति विषये चर्चा कुर्वन्ति अवधेयमस्ति यत् राज्यपाल शासनानन्तरम् उपवेशनमिदं समाहतम् जम्मूकश्मीर अनन्तनाग जनपदे श्रीग्फ्फ्फवारा क्षेत्रे सैन्यबलेन मारिता एक आरक्षि भटोऽपि ह्तात्मभूतो जात रक्षास्रोतांसि सूचयन्ति यत् आतंकिनां निगूढ सूचनां प्राप्य अन्वीक्षणं तत्र प्रारब्धम प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् भारताय विकास मिते द्विग्णीकरणस्य आवश्यकता वर्तत श्रीमोदिना अद्य प्रात नवदिल्ल्यां नूतन वाणिज्य आधारशिला स्थापिता तत् भारत सप्त दशमलव सप्तमित विकास दर येन विकासे तीव्रता समायातास्ति विगत वर्ष चत्ष्टये प्रत्यक्ष वैदेशिक निवेशी वैदेशिक मुद्रा भण्डारे च अभूतपूर्व वृद्धि सञ्जाता अत्रावसरे मंत्री सुरेश प्रभु नागरावास मंत्री हरदेव सिंह प्री च उपातिष्ठताम् प्रधानमन्त्री नरेन्द्रमोदी स्वच्छता पर्वणि श्व इन्दौर नगरे चत्सहस्र कोटि रूप्यकाणां विकास परियोजना उद्घाटयिष्यति श्रीमोदी प्रवर्तमान वर्षाय स्वच्छतासर्वेक्षण विजेतृभ्य पुरस्कारा प्रदास्यता वार्ताहर सूचितं यत् अवसरेऽस्मिन् मध्यप्रदर्श प्रशासनस्य महत्वाकांक्षी नागर परिवहन सूत्र सेवायोजनाया श्भारम्भोऽपि भविता मंत्री अरूण जेटली अवोचत यत् आतंकिन जम्मू कश्मीरस्य नागरिकाणां मानवाधिकाराणां हननं कुर्वन्ति एकस्मिन् फेसब्क इति आम्खपटलीय आलेखि जेटलिना प्रोक्तं यत् इद क्षेत्र निज प्राकृतिक सौन्दर्ये कृषिक्षि हस्तशिल्प सम्पन्नं वर्तत अस्मिन् राज्य प्रतिव्यक्ति आय अन्य राज्यानाम् अपेक्षया अपि चोक्तं यत् माओवादिन अपि मानवाधिकारिभ्य कष्टकारका सन्ति भवता कश्मीर छत्तीसगढ राज्यं वा पृथक्वादिन हिंसाम संवर्धयन्त उपराष्ट्रपति उपराष्ट्रपति एम वेंकैया नायड् प्रावोचत् यत् कृषकाणां हितभ्य इतोपि अधिक प्रयासानाम् आवश्यकता विद्यत श्रीनायडू अद्य महाराष्ट्र पुणे जनपदस्य बारामतीक्षि संवाददातृभि सह सम्भाषति स्माम् उपराष्ट्रपतिना निगदितं यत् असौ विविध शिक्षण संस्थानानां भ्रमणं करोति आशास्यत यत् संस्थानष् विधीयमान कार्याचरण आध्निक का भारत निर्माण साहाय्यं भविष्यति देशे विज्ञान केन्द्राणां महती आवश्यकता वर्तता भाजपा भाजपादल जम्मू कश्मीर सम्बद्ध विषय कांग्रलस्य नौ ग्लाम नबी आजाद सिफ्द्दीन सोजौ आलोचितौ नवदिल्ल्यां वार्ताहरै सम्वदन् भाजपा नेता रविशंकर प्रसाद उदीरितवान् यत् श्री ओजादेन भारतीय सिया अपमानं कृतम् श्रीप्रसाद प्रोक्तं यत् तस्येदं वक्तव्यम् अनौचित्यपूर्ण वर्तत कांग्रसदल वरिष्ठ न मल्लिकार्जुन खड़ग महाराष्ट्र अखिल भारतीय कांग्रस समित्या महासचिव नियुक्त वर्तमान प्रभारिण मोहनप्रकाशस्य स्थाने कार्य करिष्यति